कीर्तन आयाहि माधव मुकुन्दक्रीडलो मैमर्चन यशोद आभास स्वान्त परमात्म तायै नय कालातीतानि गमने कालपुरुषुनि गुरि नारायणतीर्थवल्लभुनि श्रीवासुदेवनि इल् अम्मनि यशोद पिलिन घटंहि माधव कीर्तन काम्भोजराग्या व्रजभुवि सुखं मध्ये सञ्चरन्तौ मुकुदौ घृतदधिपयः पायन्तौ पिबन्तौ बुद्धौ बुद्धावहमिहमिति स्वान्तभां भासयन्तौ भूयो भूयः सुतं अनुनयं त्याहचे अदौ यशोद याहि माधव माधव हे कृष्ण आयाहि आयाहि माधव माधव हे कृष्ण आयाहि सङ्गतसमये ीते सवितरि मध्यमागते मङ्गलाचारोचिते त्वयि अङ्गजसलिलावृते अधिक श्रमसंयूते अङ्गजसलिलावृते अधिक श्रमसंयूते अङ्गज खेल नैर ले आयाहि माधव माधव हे कृष्ण आयाहि चन्द्र समान चारु दधि खण्डेन चन्द्र समान चारु दधि खण्डेन सान्द्रनवनीतात्याहरं मन्दिरे मम गृहाण मञ्जुनूपुराभरण मन्दिरे मम गृहाण मञ्जुनूपुराभरण सुन्दरसुखया सादरं आयाहि माधव माधव हे कृष्ण अयाहि पल्लवाद अति कोमल पादपङ्कजयुगल पल्लवाद अति कोमल पादपङ्कजयुगल मल्लिका जाजी सुगन्धिता पल्लव पुल्लपङ्केरुहदळ पूरि नेत्र सुकपोल पुल्लपङ्के रुहदळ पुरि नेत्र सुकपोल पल्लवि मानसालङ्कार आयाहि माधव माधव हे कृष्ण आयाहि आलोला मणि कुण्डल अनवज्य मौक्तिक जाल आलोल मणि कुण्डल मौक्तिक जाल लोला बालभाेलन लोला nita ghar viloba dalina sundara daba navita ghar viloba narayana teerta sulabha narayana teerta sulabha narayana teerta sulabha narayana narayana teertha sulabha jivana narayana teertha sulabha sulabha sulabha teertha sulabha narayana teertha sulabha sulabha teertha sulabha hayana teethasulab harinarayana teethasulab harinarayana teethasulab harinarayana teethasulab shivanarayana teethasulab karinarayana teethasulab harinarayana सुलभ शिव नारायणति त सुलभ नारायण तीर्थ नारायण त आयाहि माधव माधव हे कृष्ण आया माधव माधव हे कृष्ण आया हि आयाहि